jasthaya, jasthaya ca ca kaneshthaya ca ca namah namah purvajaya purvajaya ca purvajayeti purvajaya ca parajaya ca parajaya ca parajaya ca अपराजायेत्यपरजाय च नमः नमो मध्यमाय मध्यमाय च चापगल्भाय अपगल्भाय च अपगल्भायेत्यपर् गल्भाय च नमः नमो जघन्याय जघन्याय च च बुध्मियाय बुध्मियाय च क नमः नमः सोभ्याय सोऽभ्याय च प्रतिसर्याय प्रतिसर्याय च प्रतिसर्याये च प्रतिसर्याय क नमः नमो याम्याय च चक्षे ेम्याय क्षेम्याय च क्षणमः नम उर्वर्याय उर्वर्याय च सखल्याय खल्याय च नमः नम श्लोक्याय न्याय त्रमः नमो वन्याय कन्याय च त्र कक्ष्याय कक्ष्याय च त्रमः नमःश्रवाय श्रवाय च प्रतश्रवाय प्रतश्रवाय च प्रतश्रवायेति च नमः नम आशुषेणाय आशुषेणाय च आशुसेनाय प्याशु सेनाय आशुरथाय आशुरथाय च आशुरथाय प्याशो रथाय च नमः नमः भिन्द्रते अवभिन्द्रते च अवभिन्दत इत्यव भिन्द्रते च नमः नमो बर्मिणे वर्मिणेषिने वरोचिनेश च नमः नमो भिल्मिने बिल्मिनेश च कवचिने कवचिने च नमः नमः श्रुताय च श्रुतसेनाय श्रुतसेनाय च श्रुतसेनायेति श्रुतसेनाय चेति च